नारद उवाच दिवसस्यादिमे त्वया निकमुदीरितं तद्दिवापरभागीयं कथं कार्यं तपोधनं गृहस्थस्योपकाराय वदमे वदतां वर सदा सर्वोपकाराय चरन्ति भवादृशाः श्रीनारायण उवाच प्रातःकालोदितं कर्म समाप्य विधिवत्ततः यांसिद्धाश्च यक्षोरगदैत्यसङ्घा प्रेतापिशाचा उरगाः समस्त ये चान्नमिच्छन्ति मया प्रदत्तम् ततः पञ्चमहायज्ञान् कुर्याद्भूतबलिं ततः काकस्य च शृणश्चैव बलिं इत्युक्त्वा सर्वभूतेभ्यो बलिं दत्यात् पुनः पृथक् तत आचम्यविधिवत् श्रद्धया प्रीतमानसः द्वारावलोकनं कुर्यात् अतिथिग्रहणाय च गोदोहकालं भाग्यात्तु प्राप्तश्चेदतिथिर्यदि आदौ परया भक्त्या यथा शक्त्यन्न पानतः भिक्षां च भिक्षवे दद्याद् विधिवद्ब्रह्मचारिणि आकल्पितान्नादुद्धृत्य सर्वव्यञ्जनसंयुतात् यतिश्च ब्रह्मचारी च पक्वान्न स्वामिनावुभौ तयोरन्नवदत्वैव भुक्त्वा चान्द्रायणं चरेत् यतिहस्ते जलं पूर्वम् तद्याद्भैक्षं पुनर्जलं तदभैक्षं मेरुणातुल्यं तज्जलं सागरूपमम् सत्कृत्यभिक्षवे भिक्षां यः प्रयच्छति मानवः गोप्रदानसमं पुण्यम् इत्याह भगवान् यमः ततश्च भोजनं कुर्यात् प्राङ्मुखो मौनमास्थितः प्रशस्ते शुद्धपात्रे च भुञ्जीतान्नमकुत्सयन् नैकवासा समश्नीयात् स्वासने निजभाजने स्वयमासनमारुह्य स्वस्थचित्तः प्रसन्नधीः एक एव तु यो भुङ्क्ते स्वकीये कांस्यभाजने वर्धन्त आयुः प्रज्ञायशो बलं सत्यं त्वर्तेति मन्त्रेण जलमादाय पाणिनां परिषिच्य भोक्तव्यम् भोजनात् किञ्चिदन्नाग्र्यम् आदायैव ततो बलिं दत्त्वा चित्रगुप्ताय भूतेभ्य इदमुच्चरेत् यत्र क्वचन संस्थानां क्षुत्रशोपहतात्मनाम् भूतानां तृप्तये क्षय्यम् इदमस्तु यथा सुखं प्राणायापानसंज्ञाय व्यानाय च ततः उदानाय ततो ब्रूयात् समानाय ततः परं प्रणवं पूर्वमुच्चार्य स्वाहान्ते च घृतप्लुतं पञ्चकृतो ग्रसेदन्नं जिह्वया न ततश्च तन्मना भूत्वा भुञ्जीत मधुरं पुरः लवणाम्लौ तथा मध्ये कटुतिक्तौ ततः परम् प्राग्द्रवं मध्ये तु कठिनासनम् अन्ते पुनर्द्रवाशी तु बलारोग्येन मुञ्चति अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः द्वात्रिंशच्च गृहस्थस्य त्वमितं ब्रह्मचारिणः नाद्याच्छास्त्रविरुद्धं तु भक्षं द्विज्यं प्राहुराहारं पर्युषिमश्नीयात् घृतपायसवर्जितम् अग्राङ्गुलिषु तच्छेषं निधाय भोजनोत्तरं जलपूर्णाञ्जलिं कृत्वा पीत्वा चैव तदर्धकम् अग्राङ्गुलिस्थितं शेषं भूमौ दत्त्वाञ्जलीर्जलम् शेषं निसिञ्चेत्तत्रैव पठनमन्त्रमिमम्बुधात् अन्यथायश्चित्तेन शुध्यति रौरवे पूजनिलये पद्मार्बुदनिवासिनाम् अर्थिनामुदकं दत्तम् अक्षय्यमुपतिष्ठतु निषिच्यानेन मन्त्रेण कुर्याद्दन्तविशोधनम् आचम्यपात्रमुत्सार्य किञ्चिदार्द्रेण पाणिना ततः परं समुत्थाय बहिः स्थित्वा शोधयेन शोधयेन्मुखस्तं च मृदाशुद्धजेन च कृत्वा षोडशगण्डूषान् शुद्धो भूत्वा इमौ मन्त्रौ पठन्येव पाणिनोदरमालभेत् अगस्त्यं कुम्भकर्णं च शनिञ्च आहारपरिपाकार्थं स्मरेद् निपातितः समुद्रः शोषितो येन, येन समे गस्त्यः प्रसीदतु ततः श्रीकृष्णदेवस्य कुर्वीतस्मरणं मुदा भूयोऽप्याचम्यकर्तव्यम् क्षणम् भुक्तोपविष्टः श्रीकृष्णं परं ब्रह्मविचारयेत् सच्छास्त्रादिविनोदेन सन्मार्गाद्यविरोधिना ततश्चाध्यात्मविद्यायाः कुर्वीतश्रवणं सुधीहि सर्वथा वृत्तिहीनोऽपि मुहूर्तं स्वस्थमानसः श्रुत्वा धर्मं विजानाति श्रुत्वा पापं परित्यजेत् श्रुत्वा निवर्तते मोहः श्रुत्वा चाक् श्रुत्वा ज्ञानामृतं लभेत् नीचोऽपि श्रवणेनाशु श्रेष्ठत्वं प्रतिपद्यते श्रेष्ठोऽपि नीचतां याति रहितः श्रवणेन च व्यवहारं ततः कुर्याद् बहिर्गत्वा यथा सुखं श्रीकृष्णं मनसा ध्यायेत् सर्वसिद्धिप्रदायकम् सूर्येस्तशिखरं प्राप्ते तीर्थं गत्वाथवा गृहं सायं सन्ध्यामुपासीत् धौताङ्घ्रिः सपवित्रकः यः प्रमादान्न कुर्वीत् सायं सन्ध्यां द्विजाधमः स गोवदमवाप्नोति मृतेरौरवमाप्नुयात् कदाचित्काललोपेऽपि सङ्कटेवापथि स्थितः आनिशीथात् प्रकुर्वीत् सायं सन्ध्यां द्विजोत्तमः यस्त्रिसन्ध्यमुपासीत ब्राह्मणः श्रद्धयान्वितः तत्तेजो वर्धतेऽत्यन्तं घृतेनेव हुताशनः सादित्यां पश्चिमां सन्ध्याम् अर्धास्तमितभास्करं प्राणानायम्य सम्प्रोक्ष्य ब्दैवतेन तु सायमग्निश्चमेत्युक्त्वा प्रातः सूर्येत्यपक्पिवेत् प्रत्यङ्मुखोपविष्टस्तु वाग्यतः सुसमाहितः प्रणवव्याहृदियुतां गायत्रीन्तु जपेत्ततः अक्षसूत्रं समादाय यात् वारुणीभिस्तदादित्यमुपस्थाय प्रदक्षिणम् कुर्वन् दिशो नमस्कुर्यात् दिगीशांश्चिमां सन्ध्यां भृत्यैः परिवृतो भूत्वा नातितृप्तोऽथ संविशेत् सायं प्रातरवैश्वदेवः कर्तव्यो बलिकर्म च अनश्नतापि सततम् अन्यथा किल्विषी भवेत् कृतपादादिशौचस्तु भुक्त्वा सायं ततो गृही गच्छेच्छय्यां ततो मृदवीम् उपधानसमन्वितां स्वगृहे प्राक्षिरा श्वासुरे दक्षिणाशिरः प्रवासे पश्चिमशिरां न कदाचिदुदक्षिरः जपेत् स्मृत्वायिनः नमस्कृत्या व्ययं विष्णुं समाधिस्थः स्वपेन्नि अगस्त्यो माधवश्चैव मुचुकुन्दो महाबलः कपिलो मुनिरास्तिकः माङ्गल्यं माङ्गल्यं पूर्णकुम्भं च शिरहस्थाने स्थाने निधाय च वैदिकैर्गारुडैर्मन्त्रै रक्षां कृत्वा च स्वपेत् ततः ऋतुकालाभिगामी स्यात् सदारनिरतः सदा पर्ववर्जं व्रजेदनां तद्व्रतीरतिकाम्ययां प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यौनयेत् यामद्वयं शयानस्तु एवं सर्वमशेषेण कृत्यजातं दिने दिने कर्तव्यं गृहीभिः सम्यक् गृहस्थाश्रमलक्षणं। अहिंसा सत्यवचनं। सर्वभूतानुकंपनं। दानं यथाशक्ति गार्हस्थ्यो धर्म उच्यति परदारेष्वसंसर्गो धर्मस्त्रीपरिरक्षणम् अदत्तादानविरमो मधुमांसविवर्जनम् एष पञ्चविधो धर्मो बहुशाखः सुखोदयः देहिभिर्देहपरमैः कर्तव्यो देहसम्भवः श्रीनारायण उवाच एतत चरित्रम् एतद्गृहस्थाश्रमलक्षणं हि उक्तं समासेन चलक्षणेन लक्षणेन तुभ्यं मुने लोकहिताय सम्यक् इति श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे आह्निककथनं नाम एकोनत्रिंशोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु